अथ नवतितमोऽध्यायः अष्टक उवाच यदा वसो नन्दने कामरूपी संवत्सराणामयितं शतानाम् किं कारणम् कार्तयुगप्रधान हित्वा च वसुधामन्वपद्यः ययातिर्वाच ज्ञातिस् क्षीणे वित्ते त्यज्यते मानवैर्हि तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा अष्टक उवाच कथं तस्मिन्कथं क्षीणपुण्या भवन्ति सम्मुह्यते मेत्रमनोतिमात्रं किं किम्बा विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्वम् ययातिरुवाच इमम् भौमम् नरकम् ते पतन्ति लालप्यमाना नरदेव सर्वे ते कङ्कगोमायुबलाशनार्थे क्षीणाभिवृद्धिम् बहुधा व्रजन्ति तस्मादेतद्वर्जनीयम् नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म आख्यातम् ते पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि अष्टकौवाच यदा तु तान्वितुदन्ते वयांसि तथा गृध्राश्रितिकण्ठाः पतङ्गाः कथम् भवन्ति कथमा नभौ ममन्यम् नरकम् शृणोमि ययातिरुवाच ऊर्ध्वं देहात् कर्मणा जृम्भमाणात् व्यक्तं पृथिव्यामनुसञ्चरन्ति इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि तान्वै तुदन्ति पततः चक उवाच यदे ने पतस्तुति भीमसस्तीक्षणद्रा कथम कथमा कथम भूता गर्भभूतायातिवाच अस्त्रम्रेत पुष्पलापृक्त अन्वेति तद्वै पुरुषेण सृष्टम् स वै तस्या रज आपद्यते वै सगर्भभूतः समुपैति तत्र वनस्पतीनोषधीश्चाविशन्ति अपोवायुम् पृथिवीं चान्तरिक्षम् चतुष्पदम् द्विपदं चापि सर्वम् एवम्भूता गर्भभूता भवन्ति अष्टकौवाच अन्यद्वपुर्विदधातिह गर्भम् उताहोस्वित्स्वेन कायेन याति आपद्यमानो नरयोनिमेताम् आचक्ष्व मे संशयात् प्रब्रवीमि शरीरभेदाभिसमुच्छ्रयं च चक्षुश्रोत्रे लभते केन संज्ञाम् क्षेत्रज्ञम् त्वाम् तातमन्याम सर्वे ययातिर्वाच वायुः समुत्कर्षति गर्भयोनिम् ऋतौरेतः पुष्परसानुपृक्तम् स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् स जायमानो विगृहीतमात्रः मनुष्यः सश्रोत्राभ्यां वेदयतीह शब्दं सवैरूपं पश्यति चक्षुषा च घ्राणेन गन्धं जिह्वयाथोरसं च त्वचा स्पर्शं मनसा वेदभावम् इत्यष्टकेहोपहितं हि विद्धि महात्मनां प्राणभृतां शरीरे अष्टक उवाच यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा, वा अभावभूतः विनाशमेत्य केनात्मना चेतयते परस्तात् ययातिरुवाच हित्वासोऽसंसुप्तवन्निष्टत्वा पुरोधाय सुकृतं दुष्कृतं वा अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति कीटाः पतङ्गाश्च भवन्ति पापा न विवक्षास्ति महानुभावा चतुष्पदा द्विपदा षट्पदाश्च पदाश्चा तथा भूता भूता गर्भ भवन्ति, आख्यात मेंखिल नर्व भूयस्तु पृछसी राज सिंह अष्टवाच किंस्वतेतातलोका मत्यश्रेष्ठा तपसा विद्यवा तन्मे पृष्ठ शमसर्व य शुभाल्लोकान्येन गच्छेत्क्रमेण यातिरुवाच तपश्च दानम् च शमोदमश्च ह्रीरार्जवम् सर्वभूतानुकम्पा स्वर्गस्य लोकस्य वदन्ति संतो। द्वाराणि सप्तैव महान्ति पुंसाम् नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः अधीयानः पंडितं मन्यमानो यो विद्यया हन्ति यशः परेषाम् तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्मफलम् ददाति चत्वारि कर्माण्यभयङ्कराणि भयं, भयं प्रयच्छन्त्यथा कृतानि मानाग्निहोत्रमुत मा न मौनम् मानो नाधीतमुत न मान मानमान्यो नमान नसंतापं न सन्तापं प्राप्नुयुच्चावमानात् सन्तः सतः पूजयन्तीह लोके नासाधवः लभन्ते इति दद्यामिति यज इत्यधीय इतिव्रतम् इत्येतानि तानि वर्ज्यानि सर्वशः ये चाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमार्गरुद्धं तद्वश्रेयस्तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्यचेह इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि उत्तरययाते नवतितमोऽध्यायः